अथ चतुश्चत्वारिंशः सर्गः स गत्वा सागरम् राजा गङ्गयानुगतस्तदा प्रविवेशतलम् भूमेर्यत्र ते भस्मसात्कृताः भस्मन्यथा प्लुते रामगङ्गायाः सलिलेन वै तारिता नरशार्दूल दिवम् याताश्च देववत् षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः सागरस्य जलम् लोके यावत् स्थास्यति पार्थिवा सगरस्यात्मजा सर्वे दिवि स्थास्यन्ति देववत् इयम् च दुहिताज्येष्ठा तव गङ्गा भविष्यति त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च त्रीन्पथो भावयन्तीति तस्मात्त्रिपथगा स्मृता प्लितामहानाम् सर्वेषाम् तमत्रमनुजाधिपा कुरुष्व सलिलम् राजन् प्रतिज्ञामपवर्जय पूर्वकेण हि ते राजंस्तेनाति यशसा तदा धर्मिणाम् प्रवरेणाथ नैष प्राप्तो मनोरथः तथैवांशुमतावत्स लोके प्रतिमतेजसा गङ्गाम् प्रार्थयतानेतुम् प्रतिज्ञानापवर्जिता राजर्षिणा गुणवता महर्षि समतेजसा मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च दिलीपेन महाभागतपपित्रातितेजसा पुनर्नशकितानेतुम् गङ्गाम् प्रार्थयता नघा सा त्वया समतिक्रान्ता प्रतिज्ञापुरुषर्षभा प्राप्तोऽसि परमम् लोके यशः परमसम्मतम् तच्च गङ्गावतरणम् त्वया कृतमरिन्दम अनेन च भवान् प्राप्तो महत। महत् प्लावयस्व त्वमात्मानम् नरोत्तमसदोचिते सलिले पुरुषः श्रेष्ठशुचिः पुण्यफलो भव पितामहानाम् सर्वेषाम् कुरुष्व सलिलक्रियाम् स्वस्तितेस्तु गमिष्यामि स्वम् लोकम् गम्यता नृप इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः यथा गतम् तथा गच्छद्देवलोकम् महायशाः भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम् यथा क्रमम् यथा न्यायम् सागराणाम् महायशाः कृतोदकः शुचिराजा स्वपुरम् प्रविवेशः समृद्धार्थो नरश्रेष्ठस्वराज्यम् प्रशशासः प्रममोद च लोकस्तम् नृपमासाद्य राघवा नष्टशोकः समृद्धार्थो बभूवविगतज्वरः एष ते रामगङ्गाया विस्तरोऽभिहितो मया स्वस्ति प्राप्नुहि भद्रन्ते सन्ध्याकालोऽति वर्तते धन्यम् यशस्य मायुष्यम् यश्रावयति विप्रेषु क्षत्रियेष्वितरेषु च प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च इदमाख्यानमायुष्यम् गङ्गावतरणम् शुभम् यशृणोति च काकुत्स्थसर्वान् कामानवाप्नुयात् सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशत् सर्गः